नारदपुराणम् उत्तरार्थम् अध्यायं 58 एय्ट् वसुरुवाच एवं सम्पूज्य विधिवद्भक्त्यां पुरुषोत्तमं प्रणम्य शिरसा पश्चात् साकरं च प्रसादयेत् प्राणस्त्वं सर्वभूतानां विश्वस्मिन् सरितां पदे नमस्ते स्तुत्रासि मामच्युतप्रिय स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे शुभे तीरे चाभ्यर्च्य विधिवन्नारायणमनामयं रामं कृष्णं सुभद्रां च प्रणिपत्यज सागरं शतानामश्वमेधानां फलं प्राप्नोति मानवः सर्वमापि विनिर्मुक्त सर्वदुःखविवर्जितः वृन्दारक हरिश्रीमाचोपयौवनगर्वितः विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना कुलेकविंशतिं धृत्वा विष्णुलोकं च गच्छति भुक्त्वा तत्र वरान् भोगा क्रीडित्वा च सुरै सः च्युदस्तस्मादिका यादो ब्राह्मणो ब्रह्मवित्तमः यस्य श्रीमान् सत्यवादीजितेन्द्रियः वेदशास्त्रार्थ विद्विप्रो भवेत् पश्चात् वैष्णवः योगं च वैष्णवम् ततो मोक्षमवाप्नुयाद ग्रहोपरागे सङ्क्रान्त्यामयने विशुवे तथा युगादिषु च मन्वादौ व्यदीपादे दिनक्षये अषाढ्यां चैव कार्तिक्यां माध्यां वान्यशुभे तिथौ ये त्वत्र दानं विप्रभ्य प्रयच्छन्ति फलं सहस्रगुणतमन्यतीर्थाल्लभन्ति ते पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः अक्षयाम् पितरस्तेषां तृप्तिम् सम्प्राप्नुवन्ति वै एवं स्नानफलं सम्यक् सागरस्य मयेरिदम् दानस्य च फलं देवि पिण्डदानस्य चैव हि धर्मार्थमोक्ष फलदमायु कीर्ति यशस्करं मुक्ति मुक्तिप्रदं नृणां धन्यं दुःस्वप्ननाशनं सर्वपाहरं पुण्यं सर्वकामफलप्रदं नास्तिकायनवक्तव्यं शठाय कृपणाय च तावद्गर्जन्ति तीर्थानि माहात्म्यै स्वै पृथक् यावन्नतीर्थराजस्य माहात्म्यं वर्ण्यदे द्विजैः पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलं तीर्थराजसमुद्रस्तु सर्वतीर्थफलप्रदः भूतलेयानि तीर्थानि सरितश्च सरांसिट विशन्तिसागरे तानि तेन वै श्रेष्ठतां गतः राजा समस्ततीर्थानां सागरसरिताम् पतिः तस्मात् समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामतः तमो नाशं यदाभ्येदि भास्करेभ्युदिते सदि कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति तस्मात् स्नानं च दानं च होमं जप्यम् सुरार्चनं यत्किञ्चित् क्रियते तत्र तदक्षयमिदीरितम् मोहिन्युवाच सर्वेष् सर्वेषु तु समुद्रेषु क्षारोऽयं सरितां कथं जातो गुरो ब्रूहि सर्वज्ञोऽसि यतोद्विज वसुरुवाच वक्ष्यामि शृणु चास्य सुग यथा प्राप्त वारीदेह मात्रास्य मात्रस्गदापी पुरा सृष्टिक्रमे जाता सुद्र सप्तमोिनी राखिका गर्भसंभुद दिव्य पृथ्वी राखिका नाथ कान्दया सह आस्ते वृन्दावने साक्षात् गोपगोपी कवां पदी रासमण्डलमध्ये दुः सुदीप्ते मणिमण्डपे सुसिध्नाध्यया सुस्निग्धया समयुक्तशृङ्गारे कान्दया तया हे सप्तसागरा बालास्तन्यपानकृदक्षणाः तदस्ते सर्वदो दृष्ट्वा मादरं तां जगत्प्रसूं क्षुधार्ताश्च रुदं तस्तु हास्ये दुर्मणि तत्र जग्मुस्तु सर्वे स्तन्यपानकृते क्षणाः सर्वे निवारिताश्च विद्वारस्तैर्वल्लवीगणैः विशुश्च दृश्यं क्रुद्धा बालकास्ते स्तनार्धिनः उपेक्षितागोऽपि काभिर्माधुरुत्सङ्गवर्तिनः ततस्तु प्ररुदन्तो वै ते गत्वा मणिमण्डपम् उच्चै प्रचुकृषुद्रेवी माधक्वासीति वादिनः यदा नाक्वयदे क्व यदे तदा कनिष्ठसर्वेषां विवेशायं हृदिस्थलम् तं दृष्ट्वा स्वसुधं राधा मुग्धं शृङ्गारभङ्गदम् स्वशा पक्षुभिता भद्रे भूर्लोकम् यादमाचिरं यतः शृङ्गारभङ्गम् तु मम कर्तुम् समुद्यताः भुवं गत्वा स्थास्य धैकाकिनः तत्कृत्वा वदनम् माधुर्जगद्धात्र्या विरिञ्चये विरंचिजे अत्युच्चैरुदुः सर्वे वियोगभयदादराः तदप्रसन्नो भगवान् श्रीकृष्णप्रणतार्तिः मा भैष्टपुत्रास्तिष्ठामि समीपे भवतामहम् द्रवरूपभवम् तस्तु पृथग्ग्रूपचरा सदा वर्धत्वं शारदां यादु कनिष्ठोऽभ्यन्तरे स्थितः एवमुक्त्वा जगन्नाथो बालकान्विससर्जः तेषां दुः सान्त्वनोर्धाय समीपस्त सदा भवद यप्रभृष्टोरधिगृकं सक्षा रोदो बभूवः अन्ये दुद्रवरूपा वै क्षीरोदाध्यापृथक् स्थिताः मोहिन्युवाच आराधा भवता प्रोक्ता गुरो लोकप्रसूसति तस्यास्तत्त्वं समाख्याहि श्रोतुं कौतूहलं मम पुराणेषु रहस्यं तु राधा माधववर्णनं यत् सर्वं भवान्वेत्ति यथा तथ्यन सुव्रत उपसिष्ठ उवाच तच्छ्रुत्वा मोहिनी वाक्यं भूपदे स वसुर्महान् अदीव भक्तो गोविन्दे निमग्रहृदयो भवद पुलकाङ्गितसर्वाङ्गप्रकृष्टहृदयो मुदा उवाच मोहमापन्नो मोहिनीम् द्विचसत्तम वसुरुवाच शृणु देवि प्रवक्ष्यामि रहस्यादिरहस्यकम् सुगोप्यम् कृष्णचरितम् ब्रह्मैकत्वविधायकम् प्रकृते पुरुषस्यापि नियम् तारम् विधेर्विधिम् सं हर्तारम् च संहर्तु भगवन्तम् नतोऽस्म्यहम् देवि सर्वेऽवतारस्तु ब्रह्मण कृष्णरूपिणः अवतारि स्वयम् कृष्णः सगुणो निर्गुणः स्वयम् स एव रामकृष्णश्च वस्तुतो गुणधपृथक् सर्वे प्राकृतिकलोकगोलोको निर्गुणस्वयं गावस्तेजों शवो भद्रे वेदविद्भिर्निरूपिताः ब्रह्मविष्णुशिवाद्यास्तु प्राकृताद्गुणनिर्मिताः तत्तेज्य सर्वदा देवी निर्गुणं गुणकृन्मदं गुना गुणास् तदंशवो भद्रे सर्वे व्याकृतरूपिणः व्याकृतोत्पादकाज्ञेया रजः सत्त्वतमोभिधाः अव्याकृतस्य पुंसो हि गुणा विज्ञापका शुभे देहभूता धानप्रकृतिं प्राहु कार्यकारणरूपिणी साक्षिणं पुरुषं प्राहुर्निर्गुणं तु सनातनं पुरुषो वीर्यमाधत्तप्रकृत्यां च ततो गुणाः सत्त्वाद्याह्यभवं स्तेभ्यो महत्तत्त्वं समुद्गतं पुरुषस्य चया तत्तु व्याघृतं तत्त्रिद्धा समभूद्भद्रे द्रव्यज्ञानक्रियात्मकं वैकारिकस्तैजसश्च तामसश्चेत्यकं त्रिधा वैकारिकान्मनो जज्ञे देवा वैकारिकादश दिग्वा तार्कप्रचेतोस्वि ब्रह्मेन्द्रोपेन्द्रमित्रकः कर्ममयानि च श्रोत्रत्वघ्राणदृग्जिह्वा विज्ञानेन्द्रियरूपकाः कर्मेन्द्रियाणि च उभगे वाग्वोर्मेढ्राङ्घ्रिपायवः शब्दस्तु तामस्साद्यज्ञे तस्मादाकाश एव तस्मा च वायोरभूतदोरूपं तस्मात् तेजो यज यद तेजसस्तु रसस्तस्मादापः समभवन् सदी अद्भ्यो गन्धः समुत्पन्नो गन्धात्क्षिदिरजा यदा चराचरस्य निष्ठाद्भूमावेव प्रदृश्यते आकाशादिषु तत्त्वेषु ये गित्रि च दुर्गुणाः भूमौ पञ्चगुणाप्रोक्तविशेषस्तु ततखितेः कालमायांशलिङ्गेभ्य ये तेभ्योऽण्डमचेतनं समभूचेतनं जातं धरेण विशदा सदि सोष सोऽश इष्टजलान्धरे मोक्षादीन्यस्य जादानि विराजो वयवा अपि वचनादेश्च सिद्ध्यर्थं सलिलस्तस्य वामिनि तस्य नाभ्यामभूत्पद्मं सहस्रार्को रुदिः तस्मिन् स्वयम्भूसमभूल्लोकानां प्रपितामहः तेन तत्त्वा तपस्तीं पुंसोऽनुज्ञामवाभ्यजा लोकाश्च लोकपालश्च का कल्पिता ब्रह्मणा सति त्यादिभिरसप्त सप्तोर्धं जखनादिभिः चतुर्धशभिरेभिस्तु लोकैर्ब्रह्माण्डमेदिदं तस्मिन् स सर्जभूतानि स्थावराणि चराणि च ब्रह्मणो मनसो जाताश्वत्वारसनकादयः देहाभावादयो देवि यैरिदं वर्धितं जगद इति श्री बृहन्मारदीयपुराणोत्तरभागे मोहिनीवशुसंवादे पुरुषोत्तममाहात्म्ये ब्रह्माण्डोत्पत्तिवर्णनं मामाष्ट पञ्चाशत्तमोऽध्यायः ओम्